चतुर्थोऽध्यायः ध्यानम् ओङ्गालाभ्राभाम् कटाक्षैरैकुलभयदाम् मौलिबद्धेन्दुरेखाम् शनखम् चक्रम् कृपाणम् त्रिशिकमपि करैरुद्वहन्तीम् त्रिनेत्राम् सिंहस्कन्धाधिरूढाम् त्रिभुवनमखिलम् तेजसा पूरयन्ती ्यायेद्दुर्गाम् जयाख्याम् त्रिदशपरिवृताम् सेविताम् सिद्धिकामैः ओम् ऋषिरुवाच शर्क्रादयः सुरगणा निहतेति वीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या ताम् दुष्टवः प्रणतिनम्रशिरोधराम् सा बाग्भिः प्रहर्ष पुलकोद्गमचारुदेहाः देव्यायया ततमिदम् जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या तामम्बिकामखिलदेवमहर्षिपूज्या भक्त्या नतास्म विदधातु शुभानिशानः यस्याः प्रभावमतुलम् भगवानन्तः ब्रह्माहरश्च न हि वक्तुमलम् बलम् च सा नाशायता शुभयस्य मतिम् करोतु या श्री स्वयम् सुकृतिनाम् भवनेष्वलक्ष्मीः पापात्मनाम् कृतधियाम् हृदयेषु बुद्धिः श्रद्धा सताम् कुलजनप्रभवस्य लज्जा ताम् त्वाम् परिपालय देवि विश्वम् किम् वर्णयाम तव रूपमचिन्त्यमेतत् किम् चातिवीर्यमसुरक्षय किम् चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेव गणादिकेषु हेतुः समस्तजगताम् त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरप्यपारा सर्वाश्रयाखिलमिदम् जगदम् स शभूतं, अव्यादृता हि परमा प्रकृतिस्त्वमाद्या यस्याः समस्तसुरता समुदीरणेन तृप्तिम् प्रयाति सकलेषु मठेषु देवी स्वाहासि वै पितृगणस्य च तृप्तिहेतुः उच्चार्यसे त्वमत एव जनैः स्वधा च या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैः विद्यासि सा भगवती परमाहि देवी शब्दात्मिका सुव्यवर्ग्यजुषाम् निधानम् उद्गीथरम्यपदपाठवताम् देवी त्रयी भगवती भवभावनाय भवभा वार्ता सर्वजगताम् परमार्तिहन्त्री मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागर नौरसङ्गा गौरीत्वमेव शशिमौलिकृतप्रतिष्ठा ईषत्सहासमलम् परिपूर्णचन्द्र बिम्बानुकारिकनकोत्तमकान्ति कान्तम् अत्यद्भुतम् प्रहृतमात्तरुषा तथापि वक्त्रम् विलोक्य सहसा महिषासुरेण दृष्ट्वा तु देवि कुपितम् भृगुटीकरालम् बुद्ध्यच्छशाङ्कसदृशच्छवियन्न सद्यः प्राणान्मुमोच महिषस्तदतीव चित्रम् कैर्जीव्यते हि कुपितान्तकदर्शनेन देवि प्रसीदपरमा भवति भवाय सद्यो विनाशयसि कोपवती कुलानि विज्ञातमेतदधुनैव यदस्तमेतत् नीतम् बलम् सुविबुलम् महिषासुरस्य ते सम्मता जनपदेषु धनानि तेषाम् तेषाम् यशाम् स न च सीदति धर्मवर्गः धन्यास्त एव निवृतात्मजभृत्यधारा येषाम् सदाभ्युदयदा भवति प्रसन्ना धर्म्याणि देवि सकलानि सदैव कर्माणि अत्यादृतः प्रतिदिनम् सुकृतीकरोति स्वर्गम् प्रयाति च भवति प्रसादात् लोकत्रयेऽपि फलदा देवितेन दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मद्पेति नूनमहितान्विनिहंसि देवि दृष्ट्वैव किम् न भवती प्रकरोति भस्म सर्वासुराणरिषु यत्पीनोऽषिशस्त्रम् लोकान् प्रयान्तु रिपवोऽपि शरस्त्रभूता इत्थम् मतिर्भवति तेष्वपितेति साध्वी खड्गप्रभानिकर विस्फुरणैस्तथोऽग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् यन्नागराविलयमंशुमदिन्दुखण्डयो ज्ञाननम् तव विलोकयताम् तदेतत् दुर्वृत्तवृत्तशमनम् तव देविशीलम् रूपम् तथैतदविचिन्त्यमतुल्यमन्यैः वीर्यम् च हन्तृहृतदेव पराक्रमाणाम् वैरिष्वपि प्रकटितैव दया त्वयेत्थम् केनोपमा भवतु तेऽस्य पराक्रमस्य रूपम् च शत्रुभयकार्यतिहारि कुत्र चित्ते कृपा समरनिष्ठुरता च दृष्टा वय्येव देवि वरदे त्रैलोक्यमेतदखिलं त्रैलोक्यमेतदखिलम् रिपुनाशनेन प्रातम् त्वया समरमूर्धनि तेऽपि हत्वा नीतादिवम् रिपुगणाभयमप्यपास्तम् अस्माकमुन्मदसुरारिभवम् नमस्ते शूलेन पाहिनो देवि पाहि चाम्बिके घण्टास्वनेन नः पाहि चापद्यानि स्वनेन च चा। प्राच्याम् रक्षप्रतीच्याम् चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरि सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति यानि चात्यर्थघोराणि ते रक्षास्मांस्तथा भुवम् खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीरितैरस्मान् रक्ष सर्वतः ऋशिरुवाच एवम् स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः अर्चिता जगताम् धात्रीकथा गन्धानुलेपनैः भक्त्या समस्तैस्तृदशैर्दिव्यैर्धूपैस्तु धूपिता प्राहप्रसादसुमुखी समस्तान् प्रणतान्सुरान् देव्युवाच म्रियताम् त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् देवा ऊचुः भगवत्या सर्वं सर्वम् न किञ्चिदवशिष्यते यदयम् निहतः शत्रुरस्माकम् महिशासुरः यदि चापि वरो देयस्त्वयास्माकम् महेश्वरी संस्मृता संस्कृता त्वम् नो तस्य वित्कर्दिविभवैर्धनदारादिसम्पदाम् वृद्धयेऽस्मत्प्रसन्ना त्वम् भवेधाः सर्वदाम्बिके ऋषिरुवाच इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप इत्येतत्कथितम् भूपसम्भूता सा यथा पुरा देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी पुनश्च गौरी देहात्सा समुद्भूता यथा भवति वधाय दुष्टदैत्यानाम् तथा शुम्भनि शुम्भयोः रक्षणाय च लोकानाम् देवानामुपकारिणि तच्छृणुष्व मयाख्यातम् यथावत् कथयामि ते इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रारिस्तुतिर्नाम चतुर्थोऽध्यायः